श्रीहरये नमः अतष्टमोऽध्यायः श्रीशुक उवाच हरितो रोहितसुधम्भस्तस्मात् विनिर्मित शम्भापुरीसुतवोतो विजयो यस्य चात्मजः भरुगस्तत्सुतस्तस्मात् मृकस्तस्यापि बाहुकः सोरिभिर्हृतभो राजा सा भर्यो वनमाविशत् वृद्धं तं पञ्चतां प्राप्तम् अखिष्यनुमरिष्यति और्वेण जानतात्मानं प्रजावन्तं निवारिता आज्ञायास्यै स पत्नीभिर्घरोधत् दोन्दशासक सखतेनैव सञ्जातत्सकराख्यो महायसाखान् सागरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः यस्तालजङ्गान् यवनान् सखान् हैहैयपर्भरान् न अवदीत् गुरुवाक्येन चक्रे विकृतवेषिणः मुण्डान् समश्रुधरान् कांश्चिन् मुक्तकेशार्धमुण्डितान् अनन्तर्वासस कांश्चित् बहिर्वाससोपरान् सोश्वमेतै अयजतः सर्वमेतसुरात्मकम् और्वोपदिष्टयोगेन हरिमात्मानम् ईश्वरम् तस्यो तस्योत्सृष्टं पशं यज्ञे जघारास्वं पुरन्दरः सुमत्यास्तनया तृप्ता पितुराधेसकारिणः हयमन्वेषमाणास्ते समन्तान्यकनन्महिं प्रागुदिश्चां दिशि हयं तदृशो कपिलान्तिके येष आस्ते मीलितलोचनः हन्यतां हन्यतां प इति षष्टिसहस्रिणः उदायुता अभिययो पुन्मिमे शतता मुनिः स्वसीराग्निनाथापद्मकेन्द्रकृतचेतसः महत् व्यक्तिक्रकमता भस्मसा वंशणात् स साधु वातो इति सत्त्वधामनी कथं तमो विभाव्यते जगत्पवित्रात्मनिके रजोभुवः यस्येरिता साङ्ख्यमयी दृढखेन यया मुमुक्षुस्तरते धुरत्ययं भवार्णवमृत्युपतं विपश्चितः परत्मभूतस्य कथं पृतङ्मतिः सोम समञ्जस इत्युक्तः सखे सिन्यान्रपात्मज तस्य पुत्रों सुमान्नामपितामहहिते रतः असमञ्जस आत्मानं दर्शयन्न समञ्जसं जातिस्मरपुरा सङ्गात् योगियोगात् चालितः आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियं सरय्वां क्रीडतो बालान् श्यद् उद्वेजयञ्जनम् एवं वृत्तपरित्यक्तः पित्रा स्नेहमपोह्य मे योगैश्वर्येण बालां स्तान् दर्शयित्वा तथो य अयोध्यावासिनः सर्वे बालकान् पुनरागतान् दृष्ट्वा वि राजन् राजा चाप्यन्वतप्यत अंसुमांश्चोदितो राजुरङ्गान्वेषणेयौ पितृव्यकातानुपतं भस्मान्दि दतृषेखयम् तत्रासीनं मुनिं वीक्षकपिलाख्यम् अदोषजम् अस्थौत्समाहितमनः प्राञ्जलिप्रणतो महान् अंसुमानुवाच न पश्यन्ति त्वां परमात्मनो जनो न बुद्ध्येद्याभिसमाधियुक्तिभिः कुतो परे तस्य मनश्शरीरति विसर्गसृष्टावयमप्रकाशाः येदेकभाजास्त्रिगुणप्रधानगुणान् गुना विपश्यन्त्युत वा तमश्च यन्मायया मोहितचेतसस्ते वितुस्वसत्तं न बहिः प्रकाशः तं त्वामघं ज्ञानगणं स्वभावप्रद्वस्तमायागुणभेतमोहैः सनन्तनाद्यैर्मुनिभिर्विभाव्यं कथं किमोट परिभावयामि प्रशान्तमाया गुणकर्मलिङ्ग अनामरूपं सदसत् विमुक्तं ज्ञानोपदेशाय गृहीतदेहं न पुरुषं पुराणं त्वन्माया रचिते लोके वस्तु बुद्ध्या गृहातिषु भ्रमन्ति कामलोभेर्षामोघविभ्रान्तचेतशः अद्य न सर्वभूतात्मन् कामकर्मेन्द्रियाशयः मोखपाशो दृढश्चिन्नो भगवंस्तवदर्शनात् श्रीशुक उवाच गीतानुभावस्तं भगवान् कपिलो मुनिः अंशुमन्तं उपाचे तम् अनुगृह्य श्रीभगवानुवाच अश्वोयं नीयतां वत्स पशुस्तवान् इमे च पितरो धक्ता गङ्गाम्भोर्हन्ति नेधरात् तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् सहस्रतेन पशुना क्रतुशेषं समापयते राजम् अंशुमतिं यस्य निःस्पृहो मुक्तबन्धनः और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमा इति श्रीमद्भागवते महापुराणे नवमस्कन्ते सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराज के जय